अथ वैशंपायन वैशम्पायन उवाच धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनं भीष्माय सत्यवत्यै च मात्रे चोपजहारसः विदुराय च वै प्रेषयामास तद्धनं सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ततः सत्यवती भीष्मम् कौसल्यां च तोषयामासभारता ननन्दमाता कौसल्या तमप्रतिमतेजसं जयन्तमिव पौलोमि परिष्वज्जनरर्षभं तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः सम्प्रयुक्तस्तु कुन्त्या च माद्र्या च भरतर्षभा जिततन्द्रीस्तदा पाण्डुः बभोवनगोचरः हित्वा प्रासादनिलयम् शुभा शयना चत बमगया पर सरंद दक्षिण पाश रम्यिम गिरे उसगिरीपृषु महाशालनु रराजकुन्त्या माद्र्या च पाण्डुस्सह वने चरन् करेण्वोरिव मध्यस्थः श्रीमान् पौरन्दरो गजः भारतं सह भार्याभ्यां खड्गबाणधनुर्धरं विचित्रकवचं वीरम् परमास्त्रविदं नृपं देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः उपजाहृर्वनान्तेषु धृतराष्ट्रेण चोदिताः अथ पारशवीं कन्यां देवकस्य महीपतेः रूपयौवनसम्पन्नाम् स शुश्रावपगासुतः ततस्तु आनीय भरतर्षभः विवाहं कारयामासा विदुरस्य महामतेः तस्यां चोत्पादयामास विदुरः कुरुनन्दनः पुत्रान् विनयसंपन्नान् आत्मनः सदृशान् श्री महाभार आदिपर्वण संभवपर्वण विदुपरिणशाधिकम्याय